श्रीहरये नमः अत द्वात्रिंशोऽध्यायः कपिल उवाच अतयो गृहे मेदिया धर्मानेवावसन् गृहे काममर्थं च धर्मान् स्वान् दोक्तिभूय बिभर्तितान् स चापि भगवद्धर्मात् कामूटपराङ्मुखः यजते क्रतुभिर्देवान् पित्रोन् च श्रद्ध्यान्वितः तच्छ्रद्धया क्रान्तमतिः पितृदेवव्रतः पुमान् गत्वा चान्द्रमसं लोकम् सोमभा पुनरेष्यति यदा च गीन्द्रशस्यायां हरिः तथा लोकालयं यान्ते तये ते गृहमेदिना ये स्वधर्मान्न दुह्यन्ति धीरा कामार्थहेतवे निस्सङ्घान्यस्तकर्माण प्रशान्ता शुद्धशेतसः निवृत्तिधर्मनिरता निर्ममा निरहंकृताः स्वधर्मा सत्त्वेन परिशोद्धेन चेतसा सूर्यद्वारेण ते यान्ति पुरुषम् पराबरे सम्प्रकृतिमस्योत्पद्यन्त पावनम् द्वे प्रार्थधावसाने तावदत्यासते लोकं परस्य परचिन्तकः शाम्भोनलानि लवियन्मनयिन्द्रियार्थ भूतादिभिः परिवृतं प्रदिश्जिहीर्षुषुः अव्याकृतं विसति अर्हि गुणत्रयात्मा कालं पराक्यमनुभूय परः स्वयम्भोः एवं परेत्य भगवन्तं मनुप्रविष्टा ये योगिनो जितमरुन्मनसो विराघाः तेनैव साकममृतं पुरुषं पुराणं ब्रह्मप्रधानमुपयान्त्यगताभिमानाः अततं सर्वभूतानां हृत्पद्मेषु कृतालयं श्रुतानुवा भं शरणं व्रजभावेन भामिनी आद्यस्थिरः शरणां यो वेदगर्भसहर्षिभिः योगेश्वरैकुमारद्यैर्सिद्धैर्योगप्रवर्तकैः भेददृष्ट्याभिमानेन निस्सङ्घेनाभिकर्मणा कर्तृवात्म ब्रह्मपुर पुषर्षभम स संवृत्य पुनः काले काल जाते गुणव्यतिकरे व्यति पूर्वं प्रजायते। ऐश्वर्यं पारमिष्ट्यं च तेऽपि धर्मविनिर्मितं निशेव्य पुनरायान्ते गुणव्यतिकरे सति ये द्विहासक्तमनसः ज्ञान्यपि च कृत्स्नसहा रजसाकुण्डमनसः कामात्मनो जितेन्द्रियाः पितॄन्यजत्यनुदिनं गृहेष्वभिरतासयाः त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः कथायां कथनीयोर्विक्रमस्त्यमधुद्विषः काता नूनं दैवेन विहता ये सुधां। सुधा हित्वा शृण्वन्त्य सद्घाता पुरीशमिव बिड्भुजः दक्षिणेन पथार्न पितृलोकं व्रजन्ति ते प्रजामनो प्रजायन्ते श्मशानन्धक्रिया कृतः कृता पुनर्लोकमिवंसती पतन्ति विवसा देवै सद्यो बिभ्रंसितो धयाः तस्मात्त्वं सर्वभावेन भजस्व परमेष्टिनं तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजं वासुदेवे भगवति भक्ति योगप्रयोजितः जनयत्यासु वैराग्यं ज्ञानं यत् ब्रह्मदर्शनं यथास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः न विहृण्दिवैषङ्ग्यं प्रियमप्रियमित्युत सतदैवात्मनात्मानं निस्सङ्गं समदर्शनं हेयोपाधेयरहितमारूढं पदमीक्षते ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् दृश्यादिभिः पृथक् पावैर्भगवानेक यीयते एतावाने वयोगेन वा समग्रेण कयोगिनः युज्यते विमतो ह्यर्थो यतसङ्कस्तु कृत्स्नसः ज्ञानमेकं प्राचीनैन्द्रियैर्ब्रह्मनिर्गुणम् अवभात्यर्थरूपेण ब्रांत्या सप्ताधिधर्मिणा यथमहानहं रूप त्रिवृत् पञ्चविधस्वराठ एकादशविधस्तस्य वपुरण्ढं जगत्यतः एतत्त्वयि श्रद्धया भक्त्या योगाभ्यासेन नित्यसः समाहितात्मानिसङ्गो विरक्त्या परिपश्यति इत्येतत्कथितं गुर्विज्ञानं तत् ब्रह्मदर्शनं येनानुबुध्यते तत्त्वं प्रकृते पुरुषस्य च ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः त्वयोरप्येकये वार्तो भगवः शब्दलक्षणः यथेन्द्रियैः पृथक्द्वारै अर्थो बहुगुणाश्रयः एको ना नियते तद्वद्भगवान् शास्त्रवर्त्मभिः क्रियया क्रदुभेर्धानैस्तप स्वात्यायमर्शणैः आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणा योगेन विविधाङ्गेन भक्ति योगेन चैव हि धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् आत्मतत्त्वावभूतेन वैराग्येन दृढेन च ईयते भगवानपि सगुणो निर्गुणस्वधृ प्रवोचम् भक्तियोगस्य स्वरूपं ते चतुर्विधम् कालस्य चाव्यक्तगधे योऽन्तर्धवति जन्तुषो जीवस्य संश्रुतिर्बह्वीरविद्याकर्म निर्मिताः या स्वङ्गप्रविशनात्मान वेतगतिमात्मनः भिन्नाय नज चोलुबा बिसेन गृहारूट चेत नक्ताये जामी श्रद्धा भक् य विनीताय नसूयवे भूतेषु कृतमैत्राय शश्रोषाभिरताय च बहिर्जातविरागाय शान्तचित्ताय दीयता निर्मत्सराय सुशये यस्या कं ययितं शृणुया धम्ब श्रद्धया पुरुषसहृद्यो वा विदत्ते विधत्ते मच्चित्तसख्येधिपदवीं च मे इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते कापि लेये द्वात्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमघराजकी जय